अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान् जमदग्निर्भरद्वाजः संवर्तश्च वनस्तथा दुर्वासाश्च महाभागारस्य शृङ्गश्च धार्मिकः सनत्कुमारो भगवान् योगाचार्यो महातपाः असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ऋषभोजितशत्रुश्च महावीर्यस्तथा मणिः आयुर्वेदस्तथाष्टाङ्गो देहवांस्तत्र भारत चन्द्रमा सह नक्षत्रैरादित्यश्च गभस्ति वायवः क्रतवश्चैव प्राण एव च मूर्तिमन्तो महात्मानो महाव्रतपरायणाः एते चान्ये च बहवो अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो आयान्ति तस्यां सहिता गन्धर्वाप्सरसाङ्गणाः विंशतिस्सप्त चैवन्ये लोकपालाश्च सर्वशः शुक्रो बृहस्पतिश्चैव बुधोङ्गारक एव च शनैश्चरश्चराहुश्च ग्रहाः सर्वे तथैव मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि आदित्या साधिराजानो मरुतो विश्वकर्मा भारत तथा पितृगणाः सर्वे सर्वाणि च हविंश्यथ ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डवा अथर्ववेदश्च तथा सर्वशास्त्राणि चैव इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः ग्रहायज्ञाश्च सोमश्च देवताश्चापि सर्वशः सावित्री दुर्गतरणी वाणी सप्तविधा तथा मेधा धृतिश्रुतिश्चैव सामानि स्तुतिगीतानि गाथाश्च विविधास्तथा भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते नाटका विविधाः काव्याः कथाख्यायिककारिकाः का का तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः क्षणा लवामुहूर्ताश्च दिवारात्रिस्तथैव च अर्धमासाश्च मासाश्च ऋतवश्च भारत